ब्रह्माण्डपुराणं मध्यभागम् अध्यायं फिफ्टिफोर् कपिलाश्रमस्ताश्वानयनं जैमिनिरुवाच क्रोधाग्निमेनं विप्रेन्द्र सद्यसंहर्तुमर्हसि नो चेदकाले लोकोयं सकलस्तेन दह्यते दृष्टस्ते महिमानेन व्याप्तमासीच्चराचरं क्षमस्वसंहरक्रोधं नमस्ते विप्रपुङ्गव एवं संस्तूयमानस्तु भगवान् कपिलो मुनिः तूर्णमेव क्षयं निन्ये क्रोधाग्निमदिभैरवम् तद प्रशादरा चरम देवा तपस्विन बभूवर्गद्वरा काले भगवान नारदो मुन अयोध्या मगमद्राजंदोकादृचया सगरस्तदा मागतमेक्ष्य नारद सगरस्दाख्य सम्य पूजया शास्त्र पीगृह्य चूजासी नरने नारदो राज राजूलिद वजनमब्रवीद नारद उवाच हयसञ्चारणार्थाय सम्प्रयातास्तवात्मजाः ब्रह्मदण्डहदाः सर्वे विनष्ठा नृपसत्तमा हयस्ते, यज्ञयो नृप केनाप्यलक्षिधः क्वापि नीदो विधिवशाद्दिवि तदो विनष्टं तुरगं विचिन्वन्दो महीतले प्रालभन्धनते क्वापि तत्प्रवृत्तिं तदो वने रथस्तेष्वं विचेतुं कृतनिश्चयाः सागरास्ते समारभ्य प्रजघ्नोर्वसुधातलं कनन्दो वसुधामश्वं पादाले ददृशुर्नृप समीपे तस्य योगीन्द्रं कपिलं च महामुनिं तं दृष्ट्वा पापकर्माणस्ते सर्वे कालचोदिताः कपिलं कोपयामासुरश्वहर्तायमित्यलं ततस्तत्क्रोधसम्भूतनेत्राग्नेर्दहतो दिशः इन्धनीभूतदेहास्ते पुत्रा सङ्क्षयमागताः पाप समाचारा क्रूरा पापसमचारा सर्वोकोपथका यतस्ते नाजेन्द्र सत्वं कर्मर्हसी सैर्यधनो भूवा भविध्यदन नष्टं मृदमतीतं च नानुशोचन्ति पण्डिताः तस्मात् पौत्रमिमं बालमंशुमन्दं महामतिं तुलगानयनार्थाय नियुङ्क्ष्वनृपसत्तम इत्युक्त्वा राजशार्दूलं सदस्यर्त्विक्समन्वितं क्षणेन पश्यतां तेषां नारदोऽन्तर्दधे मुनिः तच्छ्रुत्वा वचन तस्य नारदस्य नृपोत्तमः दुःखशोकपरातात्मा दध्यौ चिरमुदारधीः तं ध्यानयुक्तं सदसि समासीनमवाङ्मुखम् वसिष्ठप्राहराजानं सान्द्वयं देशकालवित् किमिदं धैर्यसाराणामवकाशं भवदृशां लभदे हृदि चेच्छोकः प्राप्तं धीरतया फलं दौर्मनस्यं शिथिलयन् सर्वं दिष्टवशानुगम् मन्वानोऽनन्तरं कृत्यं कर्तुमर्हस्य संशयं वसिष्ठेनैव मुक्तस्तु राजा कार्यार्थतत्त्वविद धृतिं सत्त्वं समालम्ब्य तथेति प्रतिभाषत अंशुमन्दं समाहूय पौत्रं विनयशालिनम् ब्रह्मक्षत्रसभामध्ये शनैरिदमभाषत ब्रह्मदण्डहदा सर्वे पितरस्तव पुत्रक पतिताः निरये शाश्वती समाः त्वमेव सन्ततिर्मह्यं राज्यस्यास्य च रक्षिता त्वदायत्तमशेषं मे श्रेयोमुत्र परत्र च सत्वं गच्छ ममादेशात्पादाले कपिलान्तिकं तुरगानयनार्थाय यत्नेन महदान्वितः तं प्रार्थयित्वाविधिवत् प्रसाद्य च विशेषतः आदाय तुरगं वत्स शीघ्रमागन्तुमर्हसि जैमिनिरुवाच एवमुक्तोंशु मांस्तेन प्रणम्य पितरं पितुः तथेत्युक्त्वा महाबुद्धिप्रययौ कपिलान्तिकं तमुपागम्य विधिवन्नमस्कृत्य यथामधिः प्रश्रयावनदो भूत्वा शनैरिदमुवाचः प्रसीद विप्रशार्दूलत्वामहं शरणं गतः कोपं च संहरक्षिप्रं लोकप्रक्षयकारकं त्वयि क्रुद्धे जगत्सर्वं प्रणाश्यमुपयास्यति प्रशान्तिमुपयाशात्सन्तु गतव्यथाः प्रसन्नोऽस्मान्महाभाग पश्य सौम्येन चक्षुषा ये त्वत्क्रोधाग्निर्दग्धास्तत्सन्तति मवेहि माम् नाम्नां सुमन्दं नप्तारं सगरस्य महीपतेः सोऽहं तस्य नियोगेन त्वत्प्रसादाभिकाङ्क्षया प्राप्तो दास्यसि चेद्ब्रह्मं स्थुरगानयनाय या च जैमिनिरुवाच इति तद्वचनं श्रुत्वा योगीन्द्रप्रवरो मुनिहि अंशुमन्दं समालोक्य प्रसन्न इदमब्रवीद स्वागदं भवदो वत्स दिष्ट्या चत्वमिहागतः गच्छशीघ्रं हयच्छायं नियतां सगरान्तिकम् अधिक्षिप्तोस्य यज्ञोऽपि प्रागदः सम्प्रवर्ततां प्रियताञ्जवरो मत्तस्त्वया यस्ते मनोगतः दास्ये सुदुर्लभमपि त्वद्भक्तिपरितोषितः येषां तु सम्प्रमाशं हि गत्वा वदपि दामहम् आपानां मरणं त्वेषां न च शोचितुमर्हसि ततः प्रणाम्य चोगीन्द्रमंशुमानिदमब्रवीद वरं ददासि चेन्मह्यं वरयेत्त्वां महामुने वरमर्खामि चेत्त्वत्तः प्रसन्नो दातुमर्हसि त्वद्रोषपावकप्लुष्टाः पितरो ये ममाखिलाः सम्प्रयास्यन्ति ते ब्रह्मन्निरयं शाश्वतीसमाः ब्रह्मदण्डहदानां तु न हि पिण्डोदक्रियाः पिण्डोदकविहीनानामिह लोके महामुने विद्यते पितृसालोक्यं न खलु श्रुतिचोदितम् अक्षयस्वर्गवासोऽस्तु तेषां तु त्वत्प्रसादतः वरेणानेन भगवन् कृतकृत्यो भवाम्यहं वैशाम् स्वर्गतेर्वदकारणम् नोदारण वे कोप से वैभवदींद्र सुप्रसन्न नेतसा निरण तवया वत्स नक्य तापी नरकेस्त पापकर्म का प्रदीक्ष्यतां तावद् यावत्त्वत्पौत्रसम्भवः कालान्ते भवितावत् स पौत्रस्तव महामतिः राजा भगीरथो नाम सर्वधर्मार्थतत्त्वविद सदुयत्नेन महदा आनेष्यदि दिवो तपस्तप्त्वा महाध्रुवं तदम्भसा पावितेषु तेषां गात्रास्थि भस्मसु प्राप्नुवन्ति गतिं स्वर्गे भवतः पितरोखिलाः तदेधि तस्या माहात्म्यं गङ्गाया नृपनन्दन भागीरथीदि लोकेऽस्मिन् सा विख्यादिमुपैष्यति यत्तो यप्लावितेष्वस्ति भस्मलोमनकेष्वपि निरयादपि सह्यादि देही स्वर्लोकमक्षयम् तस्मात् त्वं गच्छ भद्रं ते न शोकं कर्तुमर्हसि पिता महाय चैवैनमश्वं सम्प्रतिपादय जैमिनिरुवाच तदः प्रणम्य तं भक्त्या तथेत्युक्त्वा महामतिः ययौक्तेनाभ्यनुज्ञादस् साकेतनगरं प्रदी सकरं स सा समासाद्य तं प्रणम्य यथा क्रमं न्यवेदयच्छ वृत्तान्तं मुनेष्टेषां तथात्मनः प्रददौतुरकं चापि समानीतं प्रयत्नतः अधः परमनुष्ठेयमब्रवीत् किम् मयेति च यदि श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे कपिलाश्रमस्ताश्वानयनं नाम चतुष्पञ्चाशत्तमोऽध्यायः ओ